शिवगीता चतुर्थोऽध्यायः सूतौ उवाच एवमुक्त्वा गते तस्मिन् निजाश्रमम् अत रामगिरौ रामः तस्मिन् गोदावरीतटे शिवलिङ्गम् प्रतिष्ठाप्य कृत्वा दीक्षाम्यथाविधि भूतिपोषितसर्वाङ्गो रुद्राक्ष आभरणैरूतः अभिषिच्य जलैः पुण्यैः गौतमी किन्तु संभवैहि अर्चयित्वा वन्यपुष्पैः तद्वद्वन्यफलैरपि भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने नाम्नां सहस्रं प्रजपन्ने नक्तं दिवमनन्यधीः मासमेकं फलाहारो मासं वर्णाशनस्थितः मासमेकं जलाहारो मासं च पवनाशनः शान्तो दान्तप्रसन्नात्मा जायन् एवं महेश्वरं हृत्पङ्गजे समासीनम् उमादेह अर्धारिणम् चतुर्भुजं प्रणयनं विद्युत्पिङ्गजटादरम् कोटिसूर्यप्रतीकाशं चन्द्रकोटि सुशीतलम् सर्व आभरणसंयुक्तं नागयज्ञोपवीतिनं व्याघ्रचर्म अम्बरदरम् वरद अभयधारिणम् व्याघ्रचर्म उत्तरीयञ्च सुरासुरनमस्कृतम् पञ्चवक्त्रं चन्द्रमौलिम् त्रिशूलडमरुदरम् नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरम् अव्ययम् एवं नित्यं प्रजपतो गतं मासचतुष्टयम् अथ अतजातो महानादः प्रलयाम्बुदभीषणः समुद्रमथनोद्भूतमन्दरावनिवृध्वनिः रुद्रबाण अग्निसन्दीप्तपृश्यत् त्रिपुरविभ्रमः समाकर्ण्य अथ सम्भ्रान्तो यावत्पश्यति पुष्करम् तावदेव महातेजो समस्यासी पुरोद्विजा तेजसा तेन अपश्यत्स दिशो दश अन्तीकृते मोहं यातो नृपात्मजः विचिन्त्य तर्कयामास दैत्यमायां उत्थाय महावीरः सज्जं कृत्वा स्वकं दनुः अविद्यन्निशितैर्बाणैः दिव्यास्त्रैर् अभिमन्त्रितैः आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् रौद्रम् अशुपतं ब्राह्मं कौबेरं पुलिशानिलम् वार्गवादि अस्त्राणि अयं प्रायुन्तराघवः तस्मिन् तेजसी शस्त्राणि च अस्त्राण्यस्य महीपतेः विलीनानि महाब्रस्य करका इव नीरधौ ततः क्षणेन धनुस्तस्य कराच्युतम् तूणीरं च अङ्गुलित्राणम् गोदिकापि महीपते तद्दृष्ट्वा लक्ष्मणो भीतः पपात भुवि मूर्छितः अत अकिञ्चित्करो रामो जानुभ्याम गतः मीलिताक्षो भयाविष्टः शङ्करं शरणं गतः स्वरेणापि उच्चरन्मुच्चैः शम्भोर्नामसहस्रकम् शिवं च दण्डवद्भूमौ प्रणनाम पुनःपुनः पुनश्च पूर्ववच्चासीत् शब्दो दिङ्मण्डलं ग्रसन् चचालवसुधा घोरं पर्वताश्च चकंपिरे। ततत्क्षणेन शीतांशु शीतलं ते च आपतत् उन्मीलिताक्षोरामस्तु यावदेतत् प्रपश्यति पीयूषमथनोद्भूत नवनीतस्य पिण्डवत् प्रोतः स्वर्णं मरकतच्चाय श्रृङ्गद्वयान्वितम् नीलरत्नेक्षणम् ह्रस्वकण्टकम् बलभूषितम् रत्नपल्याणसंयुक्तम् निबद्धं श्वेतचामरैः कण्टिका गर्गरीशब्दैः पूरयन्तं दिशोदश तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् कोटिसूर्यप्रतीकाशं कोटिशीतां सुशीतलम् व्याघ्रचर्माम्भरतरम् नागयज्ञोपवीतिनं सर्वालङ्कारसंयुक्तं विद्युत्पिङ्गजटादरम् नीलकण्ठं व्याघ्रचर्म उत्तरीयं चन्द्रशेखरम् नानाविदायुधोद्वासि यशबाहुं त्रिलोचनम् युवानम् पुरुषश्रेष्टम् रचिदानन्दविग्रहम् तत्रैव च सुकासीनाम् पूर्णचन्द्रनिभानना नील इन्दीवरदामाभाम् उद्यन्मरकतप्रभाम् मुक्ताभरणसंयुक्ताम् रात्रिम् ताराञ्चितामिव विन्द्यचितितरोत्तुङ्गकुचभारबरालसाम् सत् असत्संशयाविट्टमद्यदेशान्तराम्बराम् दिव्याभरणसंयुक्तां दिव्यगन्धानुलेपनाम् दिव्यमालाम्बरधराम् नील इन्दीवरलोचना अलकोद्भासिवदनां ताम्बूलग्रासशोभिता शिवालिङ्गनसञ्जात पुलक उद्भासि विग्रहा सच्चिदानन्दरूपाढ्यां जगन्मातरमम्बिकाम् सौन्दर्यसारसन्दोहां ददर्ष रघुनन्दनः स्वस्ववाहनसंयुक्तान् नानायुतलसत्करा बृहद्रतन्तरादीनि सामानि परिगायतः स्वस्वकान्तासमायुक्तान् दिक्पालान् परितस्थितान् अग्रगम् गरुडारूढम् शङ्खचक्रगधादरम् कालाम्बुदप्रतीकाशम् विद्युत्कान्त्याश्रियायुतम् जपन्तं एकमनसा रुद्राध्यायम् जनार्दनम् पश्चाच्चतुर्मुखम् देवम् ब्रह्माणम् हंसवाहनम् चतुर्वक्त्रैश्चतुर्वेद रुद्रसूक्तैर्महेश्वरम् तुवन्तं भारती युक्तं। जटाधरम् जटाधरं। अतर्वसिरसादेवं। तुवन्तं मुनिमण्डलं युक्तं। अम्बुधिं नीलविग्रहम् श्वेताश्वतरमन्त्रेण तुवन्तं गिरिजापतिम् अनन्तादिमहानागान् कैलासगिरिसन्निभा कैवल्य उपनिषत्पाठान् मणिरत्नविभूषिता सुवर्णवेत्रहस्ताड्यं नन्दिनं पुरतः स्थितम् दक्षिणे मूषकारूढम् गणेशम् पर्वतोपमम् मयूरवाहनारूढम् उत्तरे षण्मुखं तथा महाकालं च चण्डेशम् पार्श्वयोर्भीषणाकृतिम् कालाग्निरुद्रं दूरस्थम् ज्वलद्दावाग्निसन्निभम् त्रिपादं कुटिलाकारम् नटत् भृङ्गिरिटिम् पुरः नानाविकारवदनान् कोटिशः प्रमथादिपान् नानावाहनसंयुक्तम् परितो मातृमण्डलम् पञ्चाक्षरीजपासक्तान् सिद्धविद्यादरादिकान् दिव्यरुद्रक गीतानि गायत्किन्नरवृन्दकम् तत्र त्रय्यम्बकं मन्त्रं जपद्विजगदम्बकम् गायन्तं वीणया गीतम् नृत्यन्तं नारदं दिवि नृत्यतो नाट्यनृत्येन ना। रम्बादीन् अप्सरोगणा गायच्चित्ररथादीना गन्धर्वाणाम् अदम्बकम् कम्बलाश्वतरौ शम्भू कर्णभूषणतां गतौ गायन्तौ पन्नगौ गीतम् कपालं कम्बलं तथा एवं देवसभां दृष्ट्वा कृतार्थो रघुनन्दनः हर्षगद्गदया वाचा तुवन्देवम् दिव्यनाम दिव्यनामसहस्रेण प्रणनाम पुनः पुनः इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवप्रादुर्भावाक्यः चतुर्थोऽध्यायः